श्रीमद्भागवतमहापुराणं दशमस्कन्ध अस्य चतुर्त्रिंशोऽध्याय सुदर्शन औ शङ्खचूडका उद्धार श्रीशुकुवाच एकदा देवयात्रायां गोपालाजातकौतिकाः अनोभीरणुद्युक्त प्रयुस्तेऽम्बिकावनं तत्र स्नात्वा सरस्वत्यां देवं पशुपतिं विभुम् आनृचोर्हणैर्भक्त्या देवीं च नृपतेऽम्बिकां गावो हिरण्यं वासांसि मधुमध्वन्नमादिताः ब्राह्मणेभ्यो ददु सर्वे देवो न प्रियतामिति उसु सरस्वतीरे जलं प्राश्यधिसव्रता रजनीं तां महाभागानन्दसुनन्दकादेह कश्चिन्महानहिस्तस्मिन् विपिने बुभुक्षितः यदीक्षया गतो नन्दं शयान मुरुगो ग्रहीषीत् स चुक्रो शाहिना ग्रस्तकृष्णकृष्णमहानयं सर्पो मां ग्रस्ते तात् प्रपन्नं परिमोचय तस्य चाक्रन्दितं श्रुत्वा गोपाला सह सोत्थिताः ग्रस्तं च दृष्ट्वा विभ्रान्ता सर्वपं दिव्यधुरुल्मुखै अलाचै दह्यमानोऽपि नामुञ्चन्तमुरङ्गमः तमस्प्यसत्पदाभ्येत्य भगवान् सात्त्वताम् पतिः स वै भगवतः श्रीमन्पादस्पर्शहता शुभेदे सर्प वपुरुहृत्वा रूपं विद्याधरार्चितम् तमप्रेच्छदृशी केशप्रणतं समुपस्थितं दीप्यमाने न वपुषा पुरुषं हेममालिनं को भवान् पर्यालक्ष्म्या रोचतेऽद्भुतदर्शनः कथं जुगुप्सितामेतां गतिं वा प्रापितो वशः सर्पुवाच अहं विद्याधर कश्चित् सुदर्शन इति श्रुतः थ्रिया दिशः ऋसिन्विरूपानङ्गिरस प्राहसं रूपदर्पितः तैरिमां प्रापितो योनिं प्रलब्धै स्वेन पाप्मना शापो मेनुग्रहायैव कृतस्थै करुणात्मभि यदहं लोकगुरुणा पदा स्पृष्टो हता शुभ त्वं भवभीतानां प्रपन्नानां भयापहम् आपृच्छे सापनिर्मुक्तपादस्प्रसादमेवहन् प्रपन्नोऽस्मि महायोगिन्महापुरसत्पते अनुजानीहि मां देव सर्वलोकेश्वरेश्वर ब्रह्मदण्डाद्विमुक्तोऽहं सद्यश्चेत्युतदर्शनात् यन्नां गृह्णगृह्णन्दिखिलान् श्रोतृणात्मानमेव च सद्य पुनाति किं भूयस्तस्य स्पृष्टपदाहिते इत्यनुज्ञाप्य दासार्हं परिक्रम्याभिवन्द्य च सुनो दिवं यात कृच्छानन्दशमोचितः निशाम्य कृष्णस्य तदात्मवैभवं व्रजौ कसौ विस्मृतं चेतसस्ततः समाप्य तस्मिन् नियमं पुनर्व्रजं निपायुयुस्तन् कथयन्त आदिता कदाचिदथ गोविन्दो रामश्चाद्भुतविक्रमः विजह्रूर्वै रात्र्यां मध्यगो व्रजयोषिताम् उपगीयमानौ ललितं श्रीजनैर्बद्धं सौहृदये स्वालिकं स्वलङ्कृतानुलिप्ताङ्गो शृङ्गौं दुर्यजोऽम्बरौ निशामुखं मानयन्तामुदितोडुपतारकम् मल्लिकागन्धमत्काले जुष्टं कुमुदवायुनां जगतु सर्वभूतानां मनश्रवणमङ्गलं तौ कल्पयन्तौ युगपतस्वरमण्डलमूर्छितं गोप्यस्तद्गीतमाकर्णमूर्च्छितान्नाविन्दृप सस्वदुकूलमात्मानं स्रस्तके स्रयं ततः एवं विक्रीडरो स्वैरं गायतो सम्प्रमत्तवन् शङ्कचूड इति ख्यातो धनदालोचरोऽभ्यगात् तयो निरीक्षतो राजन्तन्नाथं प्रमदाजनं क्रोशन्तं कालियामासन् दिस्योदित्यामशङ्कितः क्रोशन्तं कृष्णरामेति विलोक्य स्वपरिग्रहं यथागादश्चुनाग्रस्ता भ्रातरावन्वधावताम् मा भैष्टे चभया रावौ शालहस्तौ तरश्विनौ आसीदस्तु स्तं तरसा त्वरितं गुह्यकामधम् स वीक्षतावनुप्राप्तौ कालमृत्यो युवो द्विजन् विसृज्य श्रीजनं मूढप्राद्रवज्जीवितेच्छया तमन्वधावद् गोविन्दो यत्र यत्र सुधावते देहे सुस्तिरो रत्नं तस्थौ रक्षन् बलः अविदूर इवाभेत्य शिरस्तस्य दुरात्मनः जहारमुष्टिनयमाङ्ग सहचूडामणिम्बभूत् शङ्कचूडम् निहत्यैवं मणिमादाय भास्वरम् अग्रजाया ददात् प्रीत्या पश्यन्तीनाञ्च योषिताम् ते श्रीमद्भागवते महापुराणे पारभंशाम् शयितायां दसंस्कन्धे पूर्वार्धे शङ्खचूडवधो नाम चतुस्त्रिंशोऽध्यायः